अथ गीताम्यं धरोवाच भगवेश भक्तिरव्यचारिणी प्रारब्ध भुज्यम से कथम भवि हे प्रभो श्री विषुवाच प्रार्धम भुज्य गीता सदा सुक्सुखी लोके कर्मण नोपलिप्य महापिपाप गीताध्यानमक क्वचित् स्पर्शम् न कुर्वन्ति नलिनीदलमम्बुवत् गीतायाः पुस्तकम् यत्र यत्र पाठप्रवर्तते तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै सर्वे देवाश्च ऋषयः योगिनः पन्नगात्य ये गोपाला गोपिकावापि नारदोद्धव पार्षदैः सहायोजायते शीघ्रम् यत्र गीता प्रवर्तते यत्र गीता विचारश्च पाठनं पाठनम् श्रुतम् हम् निश्चितम् पृथ्वी निवसामि सदैव गीताश्रयेहं गीताश्रयेऽहम् तिष्ठामि गीतामे चोत्तमम् गृहम् गीताज्ञानमुपाश्रित्य त्रीन् लोकान् गीतामे परमा विद्या ब्रह्मरूपा न संशयः अर्धमात्राक्षरा नित्य स्वानिरुवात्यपदात्मिका चिदानन्देन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् वेदत्रयी परानन्द तत्त्वार्थज्ञानसंयुत योऽष्टादशजपो नित्यम् नरो निश्चलमानसः ज्ञानसिद्धिम् ततो याति परम् पदम् पाठे समर्थः सम्पूर्णे ततोर्ध्वम् पाठमाचरेत् तदा गोदानजम् पुण्यम् लभतेनात्र संशयः त्रिभागम् पठमानस्तु गङ्गास्नानफलम् लभेर् षडंशम् जपमानस्तु सोमयागफलम् लभेर् एकाध्यायन्तु यो नित्यं। पठते भक्तिसंयुतः रुद्रलोकमवाप्नोति गणो भूत्वा वसेचिरम् अध्यायश्लोकपादम् वा नित्यम् यः नरः स याति यावत् मन्वन्तरम् वसुन्दरे गीताया श्लोकदशकम् सप्तपञ्चचतुष्टयम् द्वौ त्रिनेकम् तदर्धम् वा श्लोकानाम् यः पठेन्नरः चन्द्रलोकमवाप्नोति वर्षाणामयुतम् ध्रुवम् गीतापाठसमायुक्तः मृतो मानुषतां व्रजेत् गीताभ्यासम् पुनः कृत्वा लभते मुक्तिमुत्तमा गीतेत्युच्चारसंयुक्तः म्रियमाणो गतिम् लभे गीतार्थश्रवणासक्तः महापापयुतोऽपि वा वैकुण्ठम् समवाप्नोति विष्णुना समोदते गीतार्थम् ज्यायते नित्यम् कृत्वा कर्माणि भूरिशः जीवन्मुक्तः स देहान्ते परमम् पदम् गीताम् आश्रित्य बहवः भूभुजो जनकादयः निर्धूतकल्मषालोके गीतायाताः परम् पदम् गीतायाः कृत्वा माहात्म्यम् नैव यः पठेत् वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः एतन्माहात्म्यसंयुक्तम् गीताभ्यासम् करोति यः सतत्फलमवाप्नोति दुर्लभाम् गतिमाप्नुयात् सूत उवाच माहात्म्यम् एतद्गीतायाः मया प्रोक्तम् सनातनम् गीतान्ते च पठेद्यस्तु यदुक्तम् तत्फलम् लभे इति श्रीवराह पुराणे गीतामाहात्म्यम् सम्पूर्णम् हरिवो तत्सत्